इवतावद् दशकम् ऋषभचरित्रम् प्रियव्रतस्य प्रियपुत्रभूतात् आग्नेत्र राजादुदितो हिनापि त्वाम् दृष्टवानिष्टतमिष्टिमध्ये तवैव तुष्टैकृतयज्ञकर्म अभिष्टुतस्तर मुनीश्वरैस्त्वम् राज्ञस्वतुल्यम् सुतम्यमान स्वयम् जनिष्येहमिति बृहाण शिरोदता बर्हिषि विश्वमूर्ते नाभिप्रियायामत मेरुदेव्या त्वमम् शथो बोर्वृषभाभिधान अलोकसामान्यगुणप्रभाव प्रमाविदासे च त्रिलोके बृधिराज्यभारम् निधायनाबी सह मेरुदेव्या प्राप्य भवन्निषेबी कद किलानन्दपदम् बदं वदन्ते इन्द्रस्त्वदुष्कर्षकृदातमर्षात् ववर्षनास्मिन् अजना यदातदात्वं निजयोगशक्त्या स्ववर्षमेन यददा सुवर्षम् जितेन्द्रदत्ताम् कमनीम् जयन्ती अदोद्वहन् अजीजनत्तत्र सतम् तनूजान् येषाम् शितीशो परदोऽग्रजन्माम् न वा भवन् योगिवरानवान्ये त्वबालयन् भारतवर्षकण्डान् सैका त्वचेतिस्तव चेशपुत्रास्तवो बलात् भूसुरभूयमीयो उक्त्वा सुदेव्यो तमुनीन्द्रमध्ये विरक्तिभक्त्यन्मिदमुग्निमार्गम् स्वयम् गतपारमहंस्यवृद्धिम् अथा जडोन्मत्तपिशासर्या परात्मभूतोऽपि परोपदेशो कुर्वन् भवान् सर्वनिरस्यमान विकारहीनो विचचारकृत्स्ना महीमहीनात्मरसा छयू व्रतम को मृग्वाकाक्या चीरं चरनाभ्यपरम स्वूप तवा क्रुधाकुटकाशे तापा मा गुरबात न ओं नमो नाराण